म् वरुणपाशमस्मदवाधमम् मि मध्यमज्ञश्रथाय अथा भयमादिज्ञव्रते लवानागसो अतितये श्याम अस्तभ्राद्या वृषभो अन्तरिक्षममिनवजिमाणम् पृथिव्या आसीद्विश्वा भुवनानि सम्राट् विश्वेतानि वरुणस्य प्रदानि यक्किञ्चेतं वरुण दै च मनुष्या आश्चमसि चित्तीयत्तव धर्मा युयोऽपि ममानस्तस्मादेन सो देवरीरिषः तवा सो यद्रिरिपुर्णधीमी यद्वाघा सत्यमुदयन्न विद्मा सर्वादाविश्यशिथिरेव देवाधारे श्यामवरुणप्रिया सह अवदे हेडो वरुण नमोभिरवज्ञेभिरीमहे अविर्भिः शयन्नस्मभ्यमसुर प्रजेतो राजन्येनागं स्रथकृ॒तानि तत्त्वायामि ब्रह्मणा वन्दमानस्तदाशास्ते यजमानो हविर्भिः नो वरुणेह भोद्युरुषगं समान आयुः प्रमोषिः